सौतिर्वाच तस्य वृक्षस्य वक्ष्यामि शश्वत् पुष्प फलोदयम् स्वादुमेध्यरसोपेतमच्छेद्यमममरैरपि मातुर्नियोगाद्धर्मात्मा गाङ्गे यस्य च धीमतः क्षेत्रे विचित्र वीर्यस्य कृष्ण द्वैपाय उत्पाद्य धृतराष्ट्रम् च जगाम तपसे धीमान् पुनरेवाश्रमम् प्रति तेषु जातेषु वृद्धेषु गतेषु परमाम् गतिम् अब्रवीत् भारतम् लोके मानुषेऽस्मिन् महान् ऋषिः जनमे जयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः शशास शिष्यमासीनम् वैशम्पायनमन्तिके स सदस्यैः सहासीनः श्रावयामास भारतम् कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः विस्तरम् कुर्वंशस्य गान्धार्या धर्मशीलताम् शत्तुः प्रज्ञाम् धृतं कुन्त्याः सम्यक् द्वैपायनोऽब्रवीत् वासुदेवस्य माहात्म्यम् पाण्डवानाञ्च सत्यताम् दुर्वृत्तं धार्त राष्ट्राणामुक्तवान् भगवान् ऋषिः इदम् शत तु लोकानाम् पुण्यकर्मणाम् उपाख्यानैः सह ज्ञेयमाद्यम् भारतमुत्तमम् चतुर्विंशति साहस्रीम् चक्रे प्रोच्यते बुधैः ततोऽप्यधः शतम् भूय संक्षेपं कृतवान् ऋषिः अनुक्रमणिकाध्यायम् वृत्तान्तम् सर्वपर्वणाम् इदम् द्वैपायनः पूर्वम् पुत्रमध्यापयच्छुकम् ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः षष्टिम् शत सहस्राणि चकारान्याम् च च देवलोके प्रतिष्ठितम् पित्र्ये पञ्चदश गन्धर्वेषु चतुर्दश एकम् शत तु मानुषेषु प्रतिष्ठितम् नारदो श्रावय देवानसितो देवलः पितॄन् गन्धर्व यक्ष रक्षाम् सि अस्मिन्स्तु मानुषे लोके वैशम्पाय न उक्तवान् शिष्यो व्यासस्य धर्मात्मा सर्व वेद विदाम्बरः एकम् शत तु मयोक्तम् वै दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः शाखा दुःशासनः पुष्प फले समुद्धे राजा धृतराष्ट्रो मनीषी युधिष्ठिरो धर्म मयो महाद्रुमः स्कन्धोऽर्जुनो शाखा माद्रीसुतौ पुष्पखले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च पाण्डुर्जित्वा बहून् देशान् बुद्ध्या अरण्ये मृगया शीलोऽन्यवसन् मुनिभिः सह मृगव्यवाय निधनात् प्रापस आपदम् जन्म प्रभृति पार्थानाम् तत्राचार विधिक्रमः प्रति धर्मस्य वायोश्चक्रस्य देवयोश्च तथाश्विनोः ततो धर्मोपनिषदः भर्तुः प्रिया धर्मानिलेन्द्रान् स्तुतिभिर्जुहावसुतवाञ्छया तद्दत्तोपनिषन्माद्री चाश्विना वाजुहावच तापसैः सह संवृद्धा मातृभ्याम् तांस्तैर्निवेदितान् दृष्ट्वा पाण्डवान् कौरवास्तदा शिष्टाश्च वर्णाः पौरा एते हर्षा चुक्रशुर्भृशम् आहुः चापरे यदा चिरम् मृतः पाण्डुः चापरे स्वागतम् पुष्पवृष्टिः शुभागन्धाः शङ्ख दुन्दुभि निःस्वनाः आसन् प्रवेशे पार्थानाम् तदद्भुतमिवाभवत् तत्प्रीत्या तद चैव सर्वेषाम् पौराणाम् हर्ष सम्भवः शब्द आसीन् महांस्तत्र दिवस्पुक् कीर्तिवर्धनः निखिलान् वेदान् छास्त्राणि नि विविधानि च न्यवसन् पाण्डवास्तत्र पूजिता अगुतोभयाः युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयो भवन् धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च गुरुशुश्रूषया यमयोर्विनयेन च तुतोष लोकः सकलस्तेषाम् शौर्य गुणेन च समवायेततो राज्ञाम् कन्याम् भर्तृ स्वयम् वराम् प्राप्तवान् अर्जुनः कृष्णाम् कृत्वा कर्मसु दुष्करम् ततः प्रभृति लोकेऽस्मिन् पूज्यः सर्व धनुष्मताम् आदित्य पार्थिवान् जित्वा सर्वांश्च महतो गणान् आजहारार्जुनो राज्यो राज्यो